अथ द्वाविंशोऽध्यायः जरासन्ध उवाच न कदा वैरं कृतं युष्माभिरित्युत चिन्तयंश्च न भवतां प्रति वै कृतं वै कृते वासति कथम् अन्यध्वं मामनागसम् अरिं वै ब्रूत हे विप्राः सतां समय एष यो नागसि प्रसदति क्षत्रियो संशयः अतो न्यथाचरन् लोके धर्मज्ञः सन्महारथः व्रजिनां गतिमाप्नोति श्रेयसोऽप्युपहन्ति च त्रैलोक्ये क्षत्रधर्मो हि श्रेयान्वयि साधुचारिणाम् नान्यं धर्मं प्रशंसन्ति ये च धर्मविदो जनाः तस्य मेऽद्यसि तस्येह स्वधर्मे नियतात्मनः अनागसम्प्रदानां च श्रीकृष्ण उवाच कुलकार्यं महाबाहो कश्चिदेकः कुलोद्वह वहते यस्तं नियोगाद्वयमभ्युद्यतास्त्वयि त्वया तोपहृता क्षत्रियालोकवासिनः तदा गः